अथर्वेदे अष्टमाष्टके पञ्चमोऽध्यायः ओ हये जाये मनसातिष्ठगोरेव चाहंसिमिश्रा कृणवावहैनो नो मन्त्रा अनुदिता स एते वयस्करन् परतरे च किमेता वाचा कृणवाच वाहम् पुरोरवः पुनरस्तम् परे हि दुरापनावात इवाहमस्मि इषुर्नश्रियविषुधेन सदा गोषाश्च तसा न रम्मीः अवीरे कृतौ विदविद्युतन्नो रानमायुञ्चितयम् तधुनयः सावसुतधते श्वशुराजवजमुषो यदिवष्ट्यन्तिगृहात् अस्तन्ननक्षेजस्मिञ्चाकन्दिभारम् श्नचिता वैकसेन त्रिस्तवान्हश्नशयो मैतसे नोदस्त्यत्यै प्रणासि पुरो ओ रवो नु ते केतमायम् राजा आमे मे अस्तदा आसीः यासु जोर्णिश्रेणिः सुम्न आ आपिहृदे चक्षुर्णग्रन्थिनी चरण्योः आञ्जयो ओर्णयो न शश्रुश्रिये गावो नधे नवो ओणवन्त समस्मिञ्जायमान आसदग्ना उदेमवर्धन्नद्या अस्वगोटाः महेयत्वाः गुरोरभोरणाया वर्धयन् दस्युहत्याय देवाः स चायता आसुजहतीष्वत्कममानुषिषु मानुषो निषेवे अवस्मत्तरसन्तेन अत्र संरथस्पृशो नाश्वाः यदा आसु अनर्तो अमृता आसु निःस्पृक्सङ्क्षोणेभिः क्रतुभिर्नपुङ्क्ते ता आतयो नतन्दश्रुमृत स्वाश्वा आशो न क्रीडयोदुन्दशानाः विद्युन्नयापतन्ति च विद्योद्भरन्ति मे अप्यागाम्यानि जनिष्ठो अपोरर्यः सुजा आतः प्रोर्वशी ग्ष इच्छा गोपीक्षा आ यहि तथा स तत्पुरोरवो महोजाः अशाः सन्ता विदुषे सस्मिन्नहन्नमः आश्रुणो किम भग्वदासे कदा सोऽनुः पितरन् जात इच्छाच्चक्रन्नाश्रुमर्तयद्विदानन् को दम्पते समनसा वियोदथयदग्निश्वशुरे सुबीरयत् प्रतिभ्रवाणि भर्तयते अश्रुचकरम् नश्वम् ददाद्ये एषि पारी पतते एषि न वायते अस्मे परेह्यस्तम् नहिमोरलापाः सुदेवो अद्य प्रपदेतनावृत्परावतम् परलाङ्गन्तवा उ अथाशैतनिर्ृतेरुपस्थेधैहम् मृका आरभसा सो अद्युः पुरो ओरवो मा वृथा मा प्रवप्तो मा आसो अशिवास उक्षन् न वैस्त्रैणा आनि सख्यानि सन्ति शालामृकाणाम् हृदयान्येता यद्विरूपाचरम् मध्येष्पवसंरात्रे घृतस्य स्तोकम् सकृतम् न आश्नान्ता देवेदन्ता आदृपाणाचरामि अन्तरिक्षप्राम्रजसो विमानीमुपशिक्षाम्युर्वशीम् वसिष्ठः उपत्वारातिस्वकृतस्य तिष्ठान्निवर्तस्व हृदयम् तप्यते मे इति त्वा देवा इम आगुरैणयथे एतद्भवसि मृत्युपबन्धुः प्रजाते ए देवानहविषाः यजाति स्वर्ग उत्मपि मादयासे प्रते ए महे विदधे एषंसिंहरि प्रते ए वन्दे मनुषो हर्यतम् मदम् हरे हरिभिश्चारुषे ततः आत्माः विशन्तो हरिवर्पसङ्गिराः हरिम् योनिमभिये समस्वरम् हिन्वन्तो हरि ए दिव्यञ्यथासदाः आयम् वृणन्ति हरिभिर्नधेनव इन्द्रा आयशोषम् हरिवन्तमर्चत सोऽस्य वज्रोहरितो य आ आयसो हरिर्निका आमो हरिरामभस्त्योः द्युम्नेषु क्षिप्रो हरिमन्युषाय इन्द्रेणिरूपाहरितामिमीक्षिरे किरि न केतुरतिधाय हर्यतो विव्यचद्वज्रोहरितो न रंह्या तुदहिंहरिशिप्रोय आ आयसः सहस्रशोका अभवद्भलिम्भरः त्वम् तमहर्यथा उपस्तुतः पूर्वेभिरिन्द्रहरिकेशयज्वः त्वम् हर्यसितभविश्वमसाभिराधो हरिजात हर्यतम् ता वज्रिणम् मन्दिरम् स्तोम्यम्मद इन्द्रम् रथे महतो हर्यता हरिः पुरोण्यस्मै समनानि हर्यत इन्द्रायसो मा हरयो अरङ्गामाहाय हरजोदधन्विरे स्थिराय हिन्वन् हरजो हरि एतुरा अर्वद्भिर्यो हरिभिर्योषमीयते सो अस्य कामम् हरिवन्तमानशे हरिश्मशारुर्हरिकेश आयशस्तु रस्पे जेजो हरिपा अवर्धत अर्वद्भिर्यो हरिभिर्वाजिनी एव सुरति विश्वा आदुरिता पारिषद्धरे सृते एवयस्य हरिणी विपेतदुष्यप्रेवाजाय हरिणीत विध्वतः प्रयत्कृते च मसे मर्मृजद्धरे एपीत्रामदस्य हर्यदस्यातस्मसद्महर्यतस्य पश्चोत्योरवाजम् हरिवाम् अधिकृदत् महे चिद्धिधिषणा हरि यतो बृहद्वयोजोदधिषे हर्यदस्त्रिता आरोदसी हर्यमाणो महित्वा नव्यम् नव्यम् हर्यसिमन्मनुप्रियम् प्रपस्त्यावसर हर्यतङ्गोराविष्कृति हरजे सूर्य आय आ त्वा आहरिजन्दम् प्रयुजोजना आनाम् बद्धो हर्यम् यज्ञम् समाधेदशो अपाः पूर्वे नामथो अ इदम् सवनम् केवलम् ते ममधि सोमम् मधुमन्तमिन्द्रसत्रावृषम् जठ रावृषस्व या ओषधीः पूर्वा आ जाता अधा आशतक्रत्वो यूयमिमम् मे अगदम् कृत ओषधेः प्रतिमोदध्वम् पुष्पतेः प्रसोवरेः अश्वा इव सति परेर्वेरुधः पारयिष्वाः ओषधीरिमातरस्तद्वो ओदेवीरुपग्रुवे स नेयमश्वङ्गाम्बास आत्मानन्तवपूरुष अश्वत्थे वो ओनिषदनम् पर्णेवो ओभसतिष्कृता गोभाजयत्किल आसथयत्सलपथ पूरुषम् यत्रौषधेः समग्मतराजा आदः समिताविव विप्रः स उच्यते भिषग्रक्षोहामी एव चातनः अश्वापते सोऽहोमापते मूर्जयन्ते मुदो ओजसम् आवित्सि सर्वा ओषधी रस्मा अरिष्टता आतये उच्छुष्मा ओषधी नाङ्गावो ओ धनम् सदमिष्यन्ते एनामात्मानन्तमपूरुष यष्कृतिर्नामपो माताथो यूयम् स्थनिष्कृतेः सेराः पदत्रिणेः स्थनयदामयति निष्कृता अतिविश्वाःपरिष्ठास्तेन आत्मा यक्ष्मस्य नश्यति पुरारे एव गृभो यथा यस्य ओषधेः प्रसर्पथाङ्गमङ्गम् परुष्परुः अतो यक्ष्मम् विवादध्व उग्रो मध्यमशेरिव साकम् यक्ष्मप्रपतचाशेणकिकी देविना साकम् वा तस्य ध्राज्या साकम् नश्य सर्वाः संविदाना इदम् मे प्रावतापचाः याः फलिनीर्या अफलाः पुष्पायाश्च पुष्पिणेः बृहस्पतिप्रसूतास्तानो मुञ्चन्तम् हसः मुञ्चन्तुमाशपथ्या आदथो अवरुण्याः आदुता अथो अयमस्य पड्बे एषात् सर्वस्माद्देव अपपतन्त्यैरवतन्तिव ओषधयस्पदे यञ्जीवमश्णवामरैन सरिष्याति पूरुषः या ओषधेः सोमराज्ञैर्बह्वे शतविलक्षणाः तासां तमस्युत्तमा रङ्कामायशम् हृदे षत्खनिता यस्मै चाहङ् घनामिवः निपच्चतुष्पदस्माकम् सर्वमस्तनातुलम् याश्चेदमुपशृण्वन्ति याश्च दूरम् बराः गताः सर्वाः सङ्गत्य वीरुतोऽस्ये सोमे न सह राज्ञाः यस्मै कृणोति ब्राह्मणस्तम् तमुत्तमास्यो ओषधे तव वृक्षा उपस्तयः उपस्थिरस्तु सोऽस्माकं यो अस्माम् अभिजासति बृहस्पते प्रतिमे देवता आमिः मित्रो वायद्वरुणो वासिपूषा आदित्यैर्वायद्वसुभिर्मरुत्वान् सपर्जन्यम् शन्तनवे वृषाय आ देवो दूतो एवापे अभिमामगच्छत् प्रतिजीनः प्रतिमावववृत्स्व तथामितेद्युमतीम् वाचमासन् अस्मेधेद्युमतीम् वाचमासम् बृहस्पते अनमीवामिधिराम् यजा आवृष्टिम् शन्तनवेपनापतिवोद्रप्सो मधुमाम् आविवेश आनो अद्रप्सा मधुमन्तोऽपिशन्तिन्द्रदेह्यधिरथम् सहस्रम् निषेदहोत्रमृतु यजस्व देवान्दे एवापे हविषाः सपरियाष्टिषेणो होत्रसुमतिम् चिकित्वान् स उत्तरस्मादधरम् समुद्रमपो दिव्या असृजद्वर्ष्याः अभि अस्मिन् समुद्रे अद्युत्तरस्मिन्नापो देवेऽभिर्न्यता अतिष्ठन् अद्रवन्नारुष्टिशेणेन सृष्टा देवापिनाप्रेषिता ना प्रेषिता देवा पुरोहितो होत्राय मृतः कृपयन्नदेशेत देवश्रुतम् मृष्ट्यव निम्ररा आणो अयच्छत यन्ता आ देवापि शुषुषानो विश्वेभिर्देवैरनुमद्यमा नः प्रपर्जन्यमीरया वृष्टिमन्तम् त्वाम्बोर्वर्षयो गीर्भिरायन्तामद्भरेषु पुरुहूत विश्वे सहस्रान्यधिरथान्यस्मे आनो यज्ञम् रो हि रश्मोपयाहि एतान्यज्ञेन पतिर्नपत्त्रे आहुतान्यधिरथा सहस्राः तेभरणर्धस्पतम्बशूरपूर्वेर्दिवो नो वृष्टिमिशितो दिनेः एतान्यज्ञेन पतिम् सहस्रासम् प्रयच्छकृष्ण इन्द्राजम् विद्वान्पृथलपुषो देहे पयानानप्यौ ऊरानन्दिपि देवेषु धेः अग्ने बाधस्वृथोऽपि दुर्गः पामीवामपरक्षा अंसि सेध अस्मात्समुद्राद्बृहतो दिवो नोपाम् अस्मात भूमानमुपरसृजेः कन्नश्चित्तमिषण्यसि चिकित्त्वान् पृथुग्मानम् वाश्रम्बा आपृथ्यैः कस्य ता तुषपसोऽव्युष्टौ रक्षद्वज्रम् रथ्रतुरमपिम्बद स हिद्युता विद्युता वेति सामपृथुञ्योऽनिमसु रत्वा ससाद ससनेभिः सहानो अस्य भ्रातुर्नरुते सत्पथस्य मायाः स वाचञ्जातापदुष्पदायन् अनर्वायच्छतदुरस्य वेदोऽघ्नञ्चिष्णदेवाम् अभिवर्पसाभूत् स जह्यो बहीर्गोश्वर्वाजोऽतिप्रधन्या आसु स्रीः अपादो यत्र युज्या आसो रथा द्रोण्यश्वास यीयते घृतम् वाः स रुद्रे बिरसस्तवाररुग्भाः हित्मेकजमारे अवद्य आगात् वम्रस्य मन्ये मिथुना विव ऊभ्रे अन्नमभेत्या आलोदयन्मुषायनन् स इद्दासन्तु वेदवम्पर्दनुष लक्षन्तु शीर्षानन्दरमन्यत अस्य त्रितोऽन्वोजसा वृधानो विपापराहमयो ओ अग्रयाहन् सद्रुक्मणे मनुष ऊर्ध्वसान आसा आविषदर्शसानायशरुम् तदृतमो न हुषोऽस्मत्सुजा आतः पुरोऽभिनदरहन् दस्युभत्ये सोऽयवस उदङन् क्षया आजगातुम् अस्मे उपयत्सेरविन्दुम् शरे एरयिष्ये नो यो ओपाष्टिरहन्त्रिरस्यो न सौरादश्यवसानेभिरस्य आजुष्णम् कृपणे अयन्दशस्यन्दर्ये एभिरस्य तस्मो देवेभिर्वरुणो रमायी अयम् कनीनऋतुपा अभेद्यमिमे धाररुञ्यश्चतुष्पात् अस्य सोमे एभिरौषिदऋजिष्वाजन्दरजद्वृषभेण पिप्रोः सुत्पायद्यजतो दीरयज्ञेः पुर इयाणोऽभिवर्पसाभूत् एवा वहो असुरवक्षधा आयवम् रकः पद्भिरुपसत्पदिन्द्रम् स्व इयानः करति स्वस्तिमस्मा इषवोर्जम् सुक्षितिम् विष्णवाभा इन्द्रगृह्यमघवन्तापतिद्भुज इह श्रुतः श्रुतपापो अधिनो वृधे देवेभिर्नः भरा आयसु भरत भागमृत्विजम् प्रवायवेजिपे क्रन्दरिष्टये गौरस्य जः पयसः प्रीतिमा आ नश आ सर्वता आतिमदितिम् वृणीमहे आ नो देवः स पितासा आविषद्भजरुजोयते यजमानाय संवते यथा आदेवान्प्रतिभूषे एमपाकवदा सर्वदा आदिमदितिम् महें। इन्द्रो अस्मे सुमना अस्तु विश्वहारादासोम सुवितस्याध्येतुनः यथा आयथा मित्रसिता निषन्दधुरा सर्वदा आदिमदितिम् वृणीमहे उक्थे न शमसापनुर्दधे बृहस्पते पदीतास्यायुषः यज्ञो मनुःप्रमदिर्नः पिताहि सर्वदा आदिमदितिम् नृणीमहे इन्द्रस्यनुसुकृतम् दैव्यं सहोऽग्निर्गृहे यलिता मेधिरः कविः यज्ञश्च भोद्वितथे चन्दमहा सर्वदाऽतिमदितिम् वृणीमहे नभो गुहाचकर्मभोरि दुष्कृतन्नाविष्ट्यम् वसवो देवहेळनम् माहिर्नो देवा अरुतस्य वर्पसः सर्वदा आतिमदितिम् वृणीमहे अपामे एवां सवितासा आविसन्या अग्वरे यैतपसे बृहदा सर्वदा आतिमदितिम् ऊर्ध्वो ग्रावा आपसवोऽस्तु सोतरि विश्वाद्वेषांसि सनुतर्युयोत स नो देवः सभिता पाजुरीड्य आ सर्वता आदिमदितिम् वृणीमहे ऊर्जङ्गा वोजवसेपीवो ओ अत्तनरुतस्य कोशे ए अङ्खे तनोरेव तन्वो ओ अस्तु भेषदमा सर्वता आदिमदितिम् क्रतु प्रा वा आजविता शश्वतामव इन्द्र इद्भद्रा प्रमतिः सुतापताम् ऊर्णमोध्ये यस्य सिक्तयः सर्वदामदितिमृणेमहे चित्रस्ते धानुः क्रतु प्रा अभृष्टिः सन्ति स्पृधोजरणिप्रा अधृष्टाः रजिष्ठया रज्याः पश्वागो स्तूतो ऊर्णतिपर्यग्रन्तुपस्योभ्यध्वंसमनसः स धजः समग्निन्द्रम्बवः स धिग्रामग्निमुषसञ्जदेवीमिन्द्रा आवतो वसेनिह्वदेवः मन्द्राकृणुध्वन्धिजातनुध्वम् नाममलित्रपर्णीम् कृणुध्वम् यिष्कृणुध्वमायुधारम् कृणुध्वम् प्राञ्जयज्ञम् प्रणयता सखायः युगत्तसीराभियुगादनुध्वम् कृते योनौ भवदेहबीजम् गिराजश्रुष्टिः सभरा असन् मो नेदीयत्सण्यः पक्वमेयात् सीरा आ युञ्जन्ति कवयो ओ युगाभितन्मरते धीरा आ देवेषु सुम् नया निरा आहावान् कृणोतनसम्बरत्रा दधातन सिञ्जामः अवतमुद्रिणम् वजम् सुषे कमलुभक्षितम् निष्कृताहावपवतम् सुवरत्रम् सुषे चलम् उद्रिणम् सिञ्जे अक्षितम् रेणीताश्वा अन्हितम् जयाथ स्वस्ति द्रोणा आहावमवतमश्मचक्रमम् सत्रकोशम् सिञ्चता नृपाणम् अजङ्कृणुध्वंस हि वो नृपाणो वर्मसेव्यद्भम् बहुला पृथूने पुरः कृणुध्वमाय सीरधृष्टावाप शुश्रोच्चमसो दृम्हतातम् आपोधियज्ञियाअम् वर्त ऊत ये देवा आ देवी यज्ञिया आमिह सानो दुहे यद्यवसेव गत्ते सहस्रधादापयसा मही गौः आतोषिञ्च हरिमीन्द्रोरुपस्थेवाशि एभिस्तक्षता शन्मजि एभिः परिष्पजद्भन्दशकक्ष्याभिरुभेधुरौ प्रतिबह्नीयुनक्त उभेधुरौ वह्निरापिब्दमानोऽन्तर्योने एव चलति द्विजानीः वनस्पतिम् वन निश्चिग्र्यः पुत्रमाच्यापयोतय इन्द्रम् सपाध इह सोमपीतये कृते रथम् यथोकृतमिन्द्रो अवधृष्णया अस्मिन्नाजौ पुरुहोदश्रवाय्ये धनभक्षेषु नो वा उत्स्मपातो ओवहधि वासो अस्याधिरथयलयत्सहस्रम् रशीरभोन्मुद्गला दासस्य वा मघवन्नार्यजस्य वा सनुदर्यवयापथम् उद्नो हृदमपि वज्ररहृषाणः कूटम् स्मदम्भदभिमा आदिमेते प्रपुष्कभारश्रव इच्छमा आनो जिरम् बाहु अभरत्सिषा आसन्न न्यक्रन्दयन्नुपयन्त एन कर्तवे वृषभो युक्तः आ आसीदवा आवचेत्सारथिरस्य केशी दृढेर्युक्तस्य द्रवतः सहा न सृच्छन्ति स्मानिष्पदो ओमुद्गलानि उत प्रतिमुदाहन्नस्य विद्वानुपायसगमत्र शिक्षन् उदा आवत्पतिमग्न्या आनामरपद्या आभिः कपुद्मान् तम्णालि कृण्वन्महवेजना आजगाः पस्पशानस्तविषेदधत्त इमन्तम् वश्यवृषभस्य काष्ठा आजावध्ये एदृघणम् सृजा आनम् येन चिकायशतवत्सहस्रम् गवामुद्गलः आरे अघाकोऽन्वि यत्थादर्शयुञ्जन्ति तम् वा परिवृत्तेवति विद्यमानर्पीप्या आनापूचक्रेणेव सिञ्चन् एष एष्या आदिद्रत्या आचयेम सुमङ्गलम् सिनवदस्तु सातम् त्वम् निष्पस्य सङ्क्रन्दनोऽनिमिष एकवीरः शतम् सेनाः अजयत्साकमिन्द्राः सङ्क्रन्दनेनानिमिषेण जिष्णुना युत्कारेण दुश्च्यभेन धृष्णुनाः रजिन्द्रेणत्सहध्वयुधो न रहिषु हस्तेन वृष्णाः सहिषु हस्तैः सवि शङ्किभिर्वशी संस्मरः प्राकयुध इन्द्रो गणेन संसृष्टदित्सोमपाबाहु शर्ध्यो उग्रधम् वा प्रतिहिताभिरस्ताः बृहस्पते परिदीयारथे रक्षोहामित्राम् अपबाधमानः प्रभञ्जन् सेनाः प्रमृणो युधाजयन्नस्माकमेध्यवितारथानाम् बलविज्ञायस्थविलः प्रवेरः सहस्तान्वाजीसहवान उग्रः अभिपेयेरो अभिसत्तासहोजाजैत्रमिन्द्ररथमातिष्ठगोवित गोत्रभिदम् गोविदम् वज्रवाहुञ्जयन्तवज्मप्रमृणन्तमोजसा इमम् स जाता अनुमेरयध्वमिन्द्रम् सखायो अनुसंरभध्वम् अभिगोत्राणि सहसा गाहमानोदयो वीरः शतमन्युरिन्द्राः दश्चवनःप्रतनाषाणयुध्यो ओस्ताकंसेनाः अवतु प्रयुत्सो इन्द्र आसान् नेता बृहस्पतिर्दक्षिणा यज्ञः पुर एतु सोमाः देवसेनानामभिभञ्जतीनाम् जयन्दीनाम् मरुतो अजन्तग्रम् इन्द्रस्य कृष्णो वरुणस्य राज्ञ आदित्यानाम् मरुताम् शब्द उग्रम् महामनसाम् भुवनच्छवानाम् घोषो ओदेवानाम् जयतामुदस्थात् उद्भर्षयमघपन्नायुधान्युत्सत्पनाम् मा मकानाम् मनांसि उद्ग्रहन् अभीषाञ्चित्तम् प्रति लोभयन्ति गृहाणाङ्गान्यप्रे परे एः अभिप्रेहि निर्दह हृत्सुशोकैः रन्ध्रेनामित्रास्तमसासन्ताम् प्रेतादयतादर इन्द्रो ओ वः शर्म यच्छतु उग्रावः सन्तु बाहवो ओ यथा सथा असौ यासेना आमरुतः परे एषामभ्यैति न ओजसा ताङ्गो ओह ततमसापमूरत् न यथामीषा आमन्यो अन्यन्न जानात् अन्धा अवित्रा भवताशीर्षाणा अहय इव तेषा अम्बो अग्निदग्धानामग्निमो वुल्लानामिन्द्रोऽहम् तु वरम् असा आविशोमः पुरुहो दतुभ्यम् हरिभ्याम् यज्ञमुपयायितोऽयम् तुभ्यङ्गिरो विप्रवीरा इयानादधन्विर इन्द्रपिबासुतस्य अप्सुधोतस्य हरिवः पिबेहदृभिः सुतस्य जठरम् वृणस्वक्षर्यमद्रय इन्द्र तुभ्यन्तेभिरुवर्धस्व मदमुत्थवाः प्रोग्राम् वेदिम् नृष्ण इयर्मि सत्याम् प्रजेसु तस्य हर्यश्व तुभ्यम् इन्द्रधेनाभिरिहमादयस्वधेभिर्विश्वा आभिश्चच्या आगृणानः ऊतेषजे वस्तव वीर्येणपयोदधाना उचिजरुतज्ञाः रजावदिन्द्रपनुषो दुरोणे तस्थर्घणन्तस्थमाद्यासः प्रणेयेतिष्टे हर्यश्व सुष्टोऽस्तु शुम्नस्य पुरुलुशोचनासह बं निष्ठा भूतिम् इति रेदधा आना स्तोतार इन्द्र तव सूदृताभि उपब्रह्माणि हरिवो हरिभ्याम् इन्द्रत्वायज्ञः क्षममानमानर्दाश्वाङ्गस्य ध्वरस्य प्रकेतः सहस्रवाचमभिमातिशाहम् सुतेरणम् मघवानम् सुहृग्निम् उपभूषन्ति गिरो अप्रतीतमिन्द्रन्नमस्याजरितुःपनन्द सप्तापोः देवे सुरणा अवृत्तायाभ्यः सिन्धुमतर इन्द्रपूर्भ्यवतिम् श्रोत्या नवजस्रवन्देर्देवेभ्यो गातुम् अनुशेतविन्दः अपो महीरभिषस्तेरमुञ्चोजा आगरास्पधि देव एकाः इन्द्रयास्त्वम् वृत्रतूर्ये चकर्थताभिर्विश्वायुस्तम्बम् बुभुष्याः वीरेण्यक्रतुरिन्द्रः सुशस्तिरुतापिधेना पुरुहूतमेट्टे आर्दयद्वृत्रमकृणोतु लोकम् ससारे शत्रुः पृतना अभिष्टिः शुनम् भवेम मघवा आनमिन्द्रमस्मिन्भरे धृतमम् शृण्वन्तमुग्रमूतये समत्सुघ्नन्तम् वृत्राणि सञ्जिसन्धनानाम् कदावसोस्तोत्रम् हर्यता वश्मशारुधत्ताः दीर्घम् सुतम् वाताप्याहाय हरेयस्य सुयुजाविवरतावेरतपन्तानुषेपाः उभारजेन केशिनापतिर्दन् अपयोरिन्द्रः पापजामर्तो न शश्रमाणोऽपि भेवान् भी शुभे यद्युयुजेदभिषेवान् स चायोरिन्द्रश्चर कृष आम् उपानतः स पर्यन्नतयोर्विव्रतयोः शूर इन्द्राः अशयस्तस्थौ केशवन्ताभ्यजः सन्तानपुष्ट्यै ननोतिशिप्राहाभ्याम् शिप्रिणे एवान् प्रास्तौ द्विष्पौजादृश्वेभ्यस्ततक्षशूरः रुभर्न क्रतुभिर्मातरिष्वा वज्रयश्चक्रे सुहना आशतस्य वेहिरमशोहिरेमान् अरुदहनुरद्भुतन्नरजाः अवनोरुजिनाशिषेत्यरुचावने मादृजाः नाब्रह्म यज्ञर्षग्जोषित्रे ऊर्ध्वायत्तेऽत्रेति नेभोद्यज्ञस्य धूषसद्वन् सजोर्नापुंस्वयश संसचायोः श्रियेते वृष्टिरूपसेजनेभोच्छ्रिये दुर्विधरेपाः यया स्वेपात्रे सिञ्चस उत शतम् वायदसुर्यप्रतिक्तासु मित्र इत्थास्तौद्दुर्मित्र इत्थास्तौ उत आभो यद्दस्युहत्ये एकुत्सपुत्रम् प्राभो यद्दस्विुहत्ये एकुत्सवत्सम् इति अष्टमाष्टके पञ्चमोऽध्यायः